मुद्गलपुराणं खण्डं सेवन् विघ्नराजचरितम् अध्यायम् इलवन् लक्ष्मीविनायकचरितवर्णनं श्रीगणेशाय नमः कश्यप उवाच एकदा सुखमासीनं नारायणमनामयं प्रणम्यतं महाभागो विश्वक्सेन उवाच विश्वक्षेन उवाच वदकेशवयोगं मे शान्दिदं ते पदप्रदं सं साध्यविष्णुरूपोऽहं भविष्यामि सुभकृदः श्रीनारायण उवाच नामरूपात्मकं सर्वमसत्यं वेदवाददः जन्मा जन्म मृत्युयुतं विद्धि ब्रह्म तत्र च तादृशम् सर्वभेदविहीनं यत् परं ब्रह्मात्मवाचकम् अमृतं सत्यमेकं तज्जानीहि योगसेवया तयोर्योगे समं ब्रह्म सदानन्दमयं परम् विष्णुरूपं समाख्यातं जानीहि भक्त्रिभावदः तदेव विघ्न राजाख्यं ब्रह्मवेदे प्रतिष्ठितं तम् भजस्वविधानेन तदा शान्तिमवाप्स्यसि विश्वक्सेन उवाच कथं विघ्नेश्वरस्वामिन् विष्णुरूपः प्रकीर्तिदः वद मां सर्वशास्त्रज्ञ संशयस्तापनुत्तये श्रीविष्णुरुवाच माया सुखं विजानीहि विघ्नयुक्तं विशेषदः आत्मसौख्यं सदा प्रोक्तं विघ्नहीनं तयोर्योगे गणेशानो विघ्नराजः प्रकीर्तितः सदानन्दमयः सोऽपि योगिभिः सेवितोऽभवद गणःसमूहरूपश्च समूहा ब्रह्मवाचकाः बाह्यान्तरादियोगेन ज्ञायन्ते योगिभिर्ध्रुवम् गणेशानस्य बिम्बं यत्पतितं hmm. युदं तदेव शिवविष्णुवादिवाचकं प्रबभूवः अदो गणेशरूपा वै वयं सर्वे कलां शदः तं भजस्वविधानेन तदा शान्तिमवाप्स्यसि कश्यप उवाच विष्णोर्वचनमाकर्ण्य विश्वक्षेनः प्रणम्यतं जगादभक्तिसंयुक्तो वचनं दक्षपुत्रिके विश्वक्षेन उवाच नाखं भजामि विघ्नेशं तव भक्तिपरायणः त्वत्तः परतरं नास्ति वदस्ये त्वा स्वयं विष्णुं तं प्रणम्य ययौ प्रिये वनं योगस्य सिद्ध्यर्थं तताप तप आदराद आनन्दं सर्वभावेषु विष्णुं भृत्वा स्वयं हृदि जचाप मन्द्रराजं स इदं विष्णुस्तु हृद्भवम् निराहारपरो भूत्वा विश्वक्से प्रतापवान तपश्चकार तद्भक्रिया वैष्णवानां शिरोमणिः ततो वर्षसदे पूर्णे प्रसन्नो गणनायकः ददौ योगं समाख्यं तु तस्मै भावधरप्रभुः स्वयं संयोगरूपं तं दृष्ट्वा संहर्षिदो तदो हृदि गणेशानं ददर्श लक्ष्मी संयुतं दृष्ट्वा खेदसमयुक्तो विष्णुं चिन्त्यमहायशाः मन्त्रं जजाप तत्रैव गणेशमवलोकयन् क्षणं नारायणं लक्ष्म्या युक्तं ददर्श चेदशि क्षणाद्विघ्नेश्वरं सोऽपि विस्मितः प्रबभूवः तपसोदिप्रभावेण शुद्धचित्तो बभुवः त्यक्त्वाभिमानजमोहं विचारमकरोत् हृदि मायामयं शरीरं तु मायाहीनं चमस्तकम् गजाकारं तयोर्योगे देहधारी गणेश्वरः अस्य बिम्बं सदा मोकयुधं देवि विनिश्चितं विष्णुः समस्वभावस्थो लक्ष्म्यायुक्तो विशेषतः स्वमहीं निश्चितो देवसिद्धिबुद्धिसमन्वितः मायाखेलकरसोऽपि लक्ष्मी पतिरुदाहृतः विष्णुना बोधिदोहं तु पूर्वकालेऽभिमानदः अबुध्यं नैव तद्रूपं वृद्धा पण्डितको यथा अहो योगसमं किञ्चिन्न नदृष्टं ना नैव संश्रुतं यस्य सेवनमात्रेणाभिमानो ना नाशमेष्यदि एवं विचार्य देवेशं गणेशं ध्यानसंयुधः ध्यात्वा पुपूजभावेन मानस्यापूजया सदु ततः प्रसन्नतां यादो गणेशो भक्तवत्सलः वरान् दातुं समायादो विश्वक्षेनाश्रमे प्रिये ध्यानस्तोन न समागदं समागतं गजाननं विश्वक्षे नस्ततश्चित्रं चकार विघ्ननायकः हृदिष्ठं गणनाथं स लोपयामास तत्क्षणाद ततोदिविह्वलस्वोऽपि तं ददर्शबहिष्ठितं लक्ष्म्यायुक्तं गणाधीशं दृष्ट्वा हर्षसमन्वितः उद्धायतं प्रणम्यादौ विश्वक्षेन पुपूजः पूजयित्वा पुनर्देहं प्रणम्य साश्रुलोचनः तुष्ठावभक्तिसंयुक्तकृताञ्जलिर्गजाननं विश्वक्षेन उवाच विघ्नेशाय नमस्तुभ्यम् भक्र विख्ण विनाशिने विघ्नविनाशिने दात्रे सुनाधाय ह्यभक्तेभ्यो नमो नमः लक्ष्मी पदे नमस्तुभ्यं बुद्धि सिद्धिबुद्धिवराय च स्वानन्दवासिने देव विकुण्ठस्ताय नमः केशवाय परेशाय चक्रपाणे गदाधर हेरम्बाय नमस्तुभ्यं परशोर्धारकाय च दशरथसुतायैव वासुदेवाय ते दे नमः शिवपुत्राय देवेश वरेण्यसुनवे नमः योगापारायणादाय योगानां शक्तिदायिने कर्त्रे कर्त्रे सदा गणेशाय नमो नमः शेषायिनमस्तुभ्यं नाभिशेषाय ते नमः सर्पयज्ञोपवीताय लम्बोदराय शाश्वते नानाखेलपरायैव नानामाया प्रचालक केलहीनाय देवानां सहायाय नमो नमः असुराणां विनाशाय सुरभ्यो वरदायिने धुण्डिराजाय भक्तेश भक्तिप्रियाय ते नमः गणेशाय गणानां तु चालकाय परात् परा नारायणाय कृष्णाय मे कश्यामाय ते नमः मायायुक्ततया नाथ विष्णुरूपोऽसि सर्वदा स्वमहिं निश्चितस्त्वं तु गणेशस्ते नमो नमः अदो गणेशदे नाम कध्यते यो विष्णुः सहि हि विघ्नशो नान्तरं विद्यते कदा एवं स्तुत्वा गणेशान्नं प्रणनाम महामतिः जगादविश्वक्सेनं च तं देवो विघ्ननायकः श्रीविघ्नेश उवाच वरान्वरयमत्तस्त्वं विश्वक्सेन महामदे तवदास्यामि दास्यामि भक््याहं तुष्टस्तोत्रेण मानद त्वया कृतमिदं स्तोत्रं भुक्ति मुक्तिप्रदं भवेद पठदे शृण्वदे चैव सर्वसिद्धिप्रदायकं कश्यप उवाच गणेशवचनं श्रुत्वा विश्वक्सेनस्तमब्रवीद कृत्वा करपुडम्भक्रिया नम्रकन्धर आदराद विश्वक्षेन उवाच यदि प्रसन्नतां यादस्तदा देहि गजानन भक्तिं ते पदपद्मे मे शान्तियोगं प्रयच्छ च जगादगणराजस्तु श्रुत्वा तं हर्षयन्निव मदीया भक्तिरुग्रादे भविष्यदि न संशयः विष्णुसङ्गतियोगेन शान्तियोगमवाक्ष्यसि यद्यदिच्छसि तत्तते सफलं चास्तु सर्वदा यवमुक्त्वा दर्दधेः सौ गणेशो भक्तियन्द्रितः विश्वक्सेनो जगामैव विकुंठं विष्णुमानमद वृत्तान्तम् कथयामास सश्रुत्वा संहर्षितो भवद केशवास्तु तमम् तस्मै महायोगम् जगाद साधयित्वा यथा न्यायं योगिवन्द्यो बभूवः विश्वक्सेनो गणेशानमभजद्भक्तिसंयुगः गुरुरूपं महाविष्णुं देवरूपं गणेश्वरं धृत्वा कृति महातेजा योगध्यानपरो भवद इदं लक्ष्मीगणेशस्य कथितं ते चरित्रकं सर्वसिद्धिप्रदं पूर्णं पठनाश्रवणाद्भवेद ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विरघ्नराजचरिते लक्ष्मी लक्ष्मीविनायकचरितवर्णनं नाम एकादशोऽध्यायः ओम्